श्रीकरये नमः अथ चतुर्विंशोऽध्यायः श्रीभगवानुवाच अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैर्विनिश्चितं यद्विज्ञाय पुमां सद्यो जह्याद्वैकल्पिकं भ्रमम् आसीतज्ञानमतो ह्यर्थ एकमेवाभिकल्पितं यदा विवेकनिपुणा आदौ कृतयुगे युगे तन्मया फलरूपेण केवलं निर्विकल्पितं वाङ्मनोगोचरं सत्यं द्विता समभवत् तयो एकतरो ह्यर्थ प्रकृतिस्तोभयात्मिका ज्ञानम् त्वन्यतमो भावः पुरुषस्सो विधीयते मोरजः सत्त्वमिति प्रकृतेरभवन्गुणाः मया प्रोक्षभ्यमाणायाः पुरुषानुमते द च तेभ्यः महान् सूद्रेण संयुतः ततो विकुर्वतो जातोऽहङ्कारो यो विमोहनः वैकारिकस्तैजश्च तामसश्चेत्यकं त्रिवेत् तन्मात्रेन्द्रियमनसा कारणं चिदचिन्मयः अर्थस्तन्मातृकाज्ज्ञे तामसादिन्द्रियाणि च तैजसा देवता आसन् वैकृतात् मया सञ्चोदिताभावा सर्वे संहमद्यकारिणः अण्डम्बुत्पातयामासोर्ममायतनमुत्तमं तस्मिन्नहं समभवम् अण्डे सलिलसंस्थितौ मनाभ्यामभूत् भूत्पद्मं विश्वाक्यं तत्र चात्मभूः सुश्रुजत्तपशायुक्तो रजसामदनुग्रहा लोकान् सपालान् विश्वात्मा भूर्भुवः स्वरिति तथा देवानोमोक आसीत् स्वर्बान् च भुवः पथम् मर्तादीना चोर्लोक सिद्धांतरम अदोसुराण न भूमे ये कस्रुज प्रभु त्रिलोक्यात कर्मणां त्रिगुणात्मना योगस्य तपश्चैव न्यायस्य गतयो मलाह मगर्जनस्तपः भक्तियोगस्य मद्गतये मया कालात्मना धात्रा कर्म युक्तमिदं जगत् निमज्जते अणोर्बृहत्कृशस्थूलो यो यो भावप्रसिध्यते सर्वोऽप्युभयसंयोक्तः प्रकृत्या पुरुषेण च यस्तु यस्यादिरन्तश्च स वैमद्यं च विकारो व्यवहारार्थो यथा तैजस पार्थिवाः यतोपाधाय पूर्वस्तु भावो विकुरुते परम् आदिरन्तो यधा यस्य तथस्यमभिधीयते प्रकृतिह्यस्योपाधानमाधारः पुरुषः परः सतोऽभिव्यञ्जककालो ब्रह्म तत्रतयं त्वहं सर्गप्रवर्तते तावत् पौर्वापर्येण नित्यसः स्थित्यन्तो यावदीक्षणं विराण्मया साध्यमानो लोककल्पविकल्पकः पञ्चत्वाय विशेषाय कल्पते भुवनैः सह अन्ने प्रलीयते मर्त्यम् अन्नं दानासु लीयते धाना भूमौ प्रलीयन्ते भूमिर्गन्ते प्रलीयते अप्सु प्रलीयते गन्ध आपश्च स्वगुणेरसे लीयते ज्योतिषीरसो ज्योतिरूपे प्रलीयते रूपं वायौ स स्पर्शे लीयते शोपि शाम्बरे अम्बरं शब्द तन्मात्र इन्द्रियाणि स्वयोनिशो यो निर्वैकारिके सौम्यं लीयते मनसिश्वरे सब्धो भूतातिमप्येते बोधाधिर्महते प्रभुः स लीयते महान् स्वेषु गुणेषु गुणवत्तमः ते व्यक्ते सम्प्रलीयन्ते तत्काले लियते व्यये कालो मायामये जीवे जीवात्मनि मयजे आत्मा केवल आत्मस्तु विकल्पायलक्षणः एवम् अन्विषमाणस्य कथं वैकल्पिको भ्रमः मनसो हृतिष्ठेत व्योम्निवार्कोदयेतमः एष संख्यविधिः प्रोक्त संशयग्रन्थिभेदनः प्रतिलोम अनुलोमाभ्यां परावरदृशामय इति श्रीमद्भागवते महापुराणे एकादशस्कन्ते चतुर्विंशोऽध्यायः सर्वत्र गोपिकजीवनस्मरणम् गोविन्द गोविन्द सद्गुरुनाथ महराज की जयी